अथ सप्तमम् दशकम् एवम् देव चतुर्दशात्मकजगद्रूपेण जातः पुनस्तस्योर्ध्वम् खलु सत्यलोकनिलये जातोऽसि धातास्वयम् यम् शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकम् योऽभूत् स्फीतरजो विकारविकसन्नाश्रक्षारसः सोऽयम् विश्वविसर्गदत्तहृदयः सम्पश्यमानः स्वयम् बोधं खल्वनवाप्य विश्वविषयम् चिन्ता कुलस्तस्थिवान् तावत् त्वम् जगताम् पते तपतपेत्येवम् हि वैहायसीम् वाणीमेनमशिश्रवश्रुतिसुखम् कुर्वम्स्तपः प्रेरणाम् कोऽसौ मामवदत् जलापूर्णे जगन्मण्डले दिक्षु वाक्यार्थमुत्पश्यता दिव्यम् वर्षसहस्रमात्ततपसा तेन त्वमाराधितस्तस्मै दर्शितवानसि स्वनिलयम् वैकुण्ठमेकाद्भुतम् माया कदापि नो विगुरुते भाते जगद्भ्यो बहिः शोकक्रोधविमोहसाध्वसमुखाभावास्तु दूरम् गताः सान्द्रानन्दझरी च यत्र परमज्योतिःप्रकाशात्मके तते धाम विजयते तत्तेम विभाजयते वैकुंठूप यस्म चतुर्भुजा नाना भूषण हरिमणिश्यादा तत्षो नाभूषणरत्दीशो राज तथाधोनतपदा दिव्य दिव्या जत्ते धा निरस्तर्वशमल वैकुंठ ज नानादिव्यवधूजनैरभिवृता विद्युल्लता तुल्यया विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा त्वत्पादाम्बुजसौरभैककुतुका लक्ष्मीः स्वयम् लक्ष्यते यस्मिन् विस्मयनीयदिव्यविभवम् तत्ते पदम् देहि मे तत्रैवम् प्रतिदर्शिते निजपदे रत्नासनाध्यासितम् भास्वत्कोडिलसत्किरीटकटकाद्याकल्पदी प्राकृति श्रीवत्साङ्गितमात्तकौस्तुभमणिच्छायारुणम् कारणं विश्वेषाम् तव रूपमै क्षतविधिस्तत्ते विभो भातु मे कालाम्भोधकलाय कोमलरुचीचक्रेण चक्रम् दिशामावृण्वानमुदारमन्दहसि तस्यन्दः स्रष्टुस्तुष्टिकरम् वपुस्तव विभो मद्रोगमुद्वासयेत् दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे हर्षावेशवशंवदो निपतितः प्रीत्या जानास्येव मनीषितम् मम विभो ज्ञानम् तदापादय द्वैताद्वैतभवत्स्वरूप परमित्याचष्टतम् भजे आताम्रे चरणे विनम्रमथतम् हस्तेन हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिभिर्बन्धोऽपि सञ्जायते इत्याभाष्यगिरम् प्रतोष्य नितराम् तच्चित्तगूढस्वयम् सृष्टौ तम् समुदैरयः स भगवन्नुल्लासयोल्लाघताम् इति सप्तमम् दशकम्